श्रीहरये नमः अथ सप्ततिमोऽध्यायः श्रीशुक उवाच अतोषस्युपवृत्ताय कुक्कुटान् कूजतो सपन् गृहीतकण्ट्यपदिभिर्माधव्यो विरहातुराः वयांस्यरूरवन्कृष्णं बोधयन्तीव बन्दिनः गायत्स्वलिश्वनिद्राणि मन्दारवनवायुभिः मन्दारवनवायुभिः मुहूर्तं तं तु भैदर्भी नाम ऋष्यत् अतिशोभनं प्रियभाग्वन्तरं गता ब्राह्महूर्त उत्थाय वायुपस्पृश्य माधवः प्रसन्नकरणं प्रसन्नकरण आत्मानं तमसः परम् एकं स्वयं ज्योति अनन्यमव्ययं स्वसंस्तया नित्यनिरस्तकल्मषम् ब्रह्माज्ञम् अस्योद्भवनासहेदुभिः स्वशक्तिभिर्लक्षितभावनिर्वृतिम् अथाप्लुतोम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससि चकार सन्त्योपगमाति सत्तम हुता नलो ब्रह्म जजापवाग्यतः उपस्थायार्कं उद्यन्तं तर्पयित्वात्मनः कलाः देवान् ऋषीन् पितॄन् वृद्धान् विप्रानप्यर्चसात्मभान् विप्रान् अभ्यर्चसात्मभान् धेनूनां रुक्मशृङ्गीणां सात्वीनां पयस्विनीनां दृष्टीनां स्वत्सानां सुवाससां धृप्य गुराग्राणां क्षौमाजिनतिलैः सहा अलङ्कृतेभ्यो विप्रेभ्यो भत्वं भत्वं दिने दिने गोविप्रदेवतावृद्ध गुरून्भूतानि सर्वसः नमस्कृत्यामसम्भूतेर्मङ्गलानि समस्पृश आत्मानं भूषयामास नरलोकविभूषणं वासोभिर्भूषणैः स्वीयैर्दिव्यश्रकनुलेपनैः अवेक्ष्याजं तथा दर्शं गोभृषद्विजदेवताः कामांश्च सर्ववर्णानां पौरान्तपुरचारिणां प्रधाप्य प्रकृतिकामे प्रतोक्ष प्रत्यनन्दत संविभज्यकृतो विप्रां शक्ताम्बूलानुलेपनैः सुकृत्तप्रकृतीर्तारानुपायुङ्क्ततस्वयम् तावत् चन्दनं परमाद्भुतं सुग्रीवाद्यर्ह्यैर्युक्तं प्रणं ग्रतः गृहीत्वा पाणिना पाणि सारथिस्तम्मतारुह पूर्वाद्रिमिव भास्करः ईक्षितोऽन्तः पुरस्त्रीणां सव्रीटप्रेमवीक्षितैः कृश्राद्विसृष्टो निरगाज्जात हासोहरन्मनः सुधर्माख्यां सभां सर्वैर्वृष्णिभिः परिवारिधः प्रविचत्यन्निविष्ठानां न सन्त्यङ्गक्षडूर्मयः तत्रोपविष्टपरमासने विभोर्भौ स्वभासा खगुभो ब भासयन् वृतो राजो दिवि तारका तत्रोपमन्त्रिणो राजन् नानाहास्य रसैर्विभुम् उपतस्तुर्नटाचार्या नर्तक्यस्ताण्डवैपृथक् मृतङ्गवीणामुरज वेणुताळधरस्वनैः नन्तृदुर्जगुस्तुष्टुवुश्च सूतमागतवन्दिनः तत्रा कुर्ब्राह्मण केशिदाशीना ब्रह्मवादिनः पूर्वेषां पुण्ययससा राज्ञां चाकथयन् कथाः तत्रैकपुरुषो राजन्नागतो पूर्वदर्शनः विज्ञापितो भगवते प्रतीकारैः प्रवेशितः स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः राज्ञा मावेदयद्दुःखं चरासन्तनिरोधजम् ये च दिग्विजये तस्य सन्नतिं नयुर्नृपाः प्रसह्यरुद्धास्तेनासन् अयुते द्वे कृष्ण कृष्ण अप्रमेयात्मन् प्रभन्नभयपञ्जन वयं त्वां शरणं यामो भवभीता पृथग्धियः लोको विकर्म निरथ प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे यस्तावदस्य बलवानिः जीविता सा सत्यश्चिनत्यनिमिषाय नमोऽस्तु तस्मै लोके भवान् जगदिन कलयावतीर्णः सद्रक्षणाय कलनिग्रहणाय चान्यः कच्चि त्वदीयमतियाति निदेशमीश किं वाचन स्वकृतं रोचते तन्न विद्मः स्वप्नायितं नृपसुखं परतन्त्रमीश शश्वद्भयेन मृतत्केन दुरं वहामः हित्वा तदात्मनि सुखं द्वतनीह लभ्यं क्लिश्यामहेति कृपणास्तवमाय तन्नो भवान् प्रणतशोक हराङ्घ्रियुग्मो भक्तान् वियुङ्क्ष्व महदाह्वय कर्मपासात् यो बो भुजो युत मदङ्गजवीर्यमेको बिभ्रतरुतभवने मृगराडिवावीः यो वै त्वया द्वि भग्नो मृदे खलु भवन्तमनन्तवीर्यं जित्वा नृलोकनिरतं सकृतूढदर्भो युष्मत्प्रजा रुजति नो जिदत्तद्विदेही दूत उवाच इतीमागतसमृद्धा भवद्दर्शनकाङ्क्षिणः प्रपन्नाः पादमूलं ते दीनानां संविधीयता श्रीशुक उवाच राजदूते ब्रुवत्येवं देवर्षीपरमद्युतिः बिप्रत्पिङ्गजटाभारं प्रातुराशीत्यतारवी तं दृष्ट्वा भगवान् कृष्णसर्पलोकेश्वरेश्वरः ववन्द उत्थितः सीष्णा स सभ्यः सानुगोमुदा सभाजयित्वा विधिवत् कृतासनपरिग्रहं बभाषे सुनृतैर्वाक्ये श्रद्धया तर्पयन्मुनिम् <laughs> अभिस्मित्तद्यलोकानां त्रयाणामकुतो भयं ननुभूयान् भगवतो लोकान् पर्यटतो गुणः नखिते वितितं किञ्चित् लोकेष्वीश्वरकर्तृषु अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितं श्रीनारदौ उवाच दृष्टा मया ते बगुसोदुरत्यया मायाविभो भूतेषु भोमंश्चरतः स्वशक्तिभेर्वेरिवच्छन्नरुचो तवेहितं कोहर् कोर्हति साधु वेदितुं यद्विद्यमानात्मतया व भासते तस्मै नमस्ते स्वविलक्षणात्मने जीवस्य यः संसरतो विमोक्षणं न जानतो नर्तवहाश्चरीरतः लीलावतारैस्वयसः प्रदीपकं प्राज्वालायत्वातमहं प्रभद्ये अताभ्याश्रावये ब्रह्म नरलोकविडम्बनं राज्ञ पैतृष्वये सेयस्य भक्तस्य च चिकीर्षितं यक्षति त्वामहेन्द्रेण राजसूयेन पाण्डवः पारमेष्ट्यकामो नृपतिस्तद् भवान् अनुमोदता तस्मिन् देवक्रतुवरे भवन्तं वैशुराधयः दिवृक्षवयक्षमिष्यन्ति राजनस्य यशस्विनः श्रवणात् कीर्तनाध्यानात् पूयन्ते देवसायिनः तव ब्रह्ममयस्येषा विमर्सिनः यस्यामलं दिवि यसः प्रतितं रसाय भौमौच ते भुवनमङ्गलदिग्वितानं मन्दाकिनीति दिवे भोगवतीतिशाधो गङ्केति शेखचरणाम्भो पुनाति विश्वम् श्रीशुक उवाच तत्र देशो अग्रनस्तु विजिकी विजिगीषया वाचः पेशैस्मयन्प्रत्य उद्धवं प्राह केशवः श्रीभगवानुवाच त्वं हि नः परमं चक्षु सुकृ मन्त्रार्थतत्त्ववेत् तथात्र ब्रूह्यनुष्ठेयं श्रद्धत्मकरवामथ इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धव निर्देशं स्थिरसाधय उद्धवः प्रत्यभाषता इति श्रीमद्भागवते महापुराणे दशमस्तन्ते उत्तरार्धे भगवत्यानविचारे भगवद्यानविचारे सप्ततितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्धा सद्गुरुनाथमहराज की जय